कहा महामूर्खः पुरातनकाले कस्मिंश्चित् ग्रामे दामोदरः नाम कश्चन महामूर्खः आसीत् सः दरिद्रः इत्यतः तस्य विवाहः अपि न जातः दामोदरस्य अल्पा भूमिः आसीत् तत्रापि फलोदयकाले येन केनापि कारणेन सर्वमपि नष्टं भवति स्म कदाचित् कश्चन संन्यासी दामोदरस्य दुरवस्थां दृष्ट्वा उक्तवान् मित्र बहत भाग्य निद्रित अस् अत शुभ जायम नास्त भाव इत पूर्व अभी प्रयाण कर चुरीश् दिनामें भाई पर्वत द्रक्ष्य त्रवत भाग्य निद्रित अस् भाजागर तथा भाव कार्यु यश प्रापस्य दामोदरः संन्यासीवचनानुसारं यत्रार्थं प्रस्थितवान् मार्गे अरण्यं सम्प्राप्तं तत्र कश्चन सिंहः तस्य पुरतः गर्जन् समुपस्थितः अभवत् स्वस्य दर्शनात् कम्पमानं दामोदरं दृष्ट्वा सिंहः अवदत् भोः भयं मास्तु भवान् कः कुत्र प्रस्थितः इति दामोदरः स्वीयं वृत्तान्तं निवेदितवान् तदा सिंहः अवदत् तर्हि ममापि किञ्चित् उपकारं करोतु मम बुभुक्षा एव न भवति तत् कुतः इति भवतः भाग्यं विचार्यं मां सूचयतु इति दामोदरः तत् अङ्गीकृत्य ततः अग्रे गतवान् अनेकदिनानि यावत् प्रयाणं कृत्वा किञ्चन अध्यानं दृष्टवान् अध्यानस्वामी फलानि दत्वा दामोदरस्य आतिथ्यं कृतवान् ततः दामोदरस्य वृत्तान्तं सर्वं श्रुतवान् अनन्तरं तस्मै किञ्चित् वृक्षं दर्शयन् सः उक्तवान् पश्यतु मम उद्याने अन्ये सर्वेऽपि वृक्षाः फलन्ति परन्तु एषः एकः वृक्षः न फलाति तत् किमर्थं केन उपायेन एषः फलेत् इति च भवतः भाग्यदेवतां विचार्य मां सूचयतु इति दामोदरः तदपि अङ्गीकृत्य पुनः यात्राम अनुवर्तितवान् केषाञ्चित् दिनानाम् अनन्तरं सः किञ्चन नगरं प्राप्तवान् तत्रत्य बठाह अपरिचितं न तं निर्गृह्य महाराजस्य पुरतः नीतवन्तः महाराजः तस्य विचारणं कृत्वा सर्वं वृत्तान्तं ज्ञातवान् ततः एकान्ते तम् उक्तवान् ममा मैं प्रजाजना मत् भीता नीत भाग्यदेवताचारूचय दामोदर तदप्य अंगीकृत अग्रे गुनः काीचन दिनाव प्रयाण कर उत्तर तम पर्वत प्राप्त त्र गुहायाँ कचन निद्रित आसी दामोदरा तम जागरूक पृष्ठवा भाव क्या अहमेव भवतः भाग्यम् इतः परं भवता, भवता चिन्ता करणीया नास्ति भवतः शुभदिनानि तत्र हितानि भवान् निश्चितः भवतु इति सः उक्तवान् नितरां सन्तुष्टः दामोदरः मम त्रयः प्रश्नाः सन्ति कृपया तेषाम् उत्तरं वदतु इति निवेद्य त्रीन् प्रश्नान् पृष्टवान् तेन त्रयाणामपि उत्तरम् उक्तम् मत्तः प्रजाजनाः किमर्थं भीतः न भवन्ति इत्यस्य महाराजस्य प्रश्नस्य उत्तरम् आसीत् वस्तुतः सः न राजा अपि तु पुरुषा राज्ञी पुरुषवेदवेषधरा सा शासनं करोति सा, सा यदि किञ्चित् पुरुषं वृणोति तर्हि प्रजानां सुखं भवति इति वृक्षः न पलति कुतः इत्यस्य उत्तरम् एवम् आसीत् तस्य वृक्षस्य अधः सुवर्णराशिः अस्ति अज्ञानस्वामी यदि तत्र खननं कृत्वा सुवर्णं गृह्णाति तर्हि वृक्षः पलति इति यदि किञ्चित् महामूर्खः खादति तर्हि सिंहस्य बुभुक्षा भवति इति आसीत् अन्यस्य प्रश्नस्य उत्तरं दामोदरः अतीवसन्तुष्टः सन् ततः प्रस्थाय प्रथमं राजभवनं गतवान् तत्र विषयं निवेदितवान् राज वेषधराज्ञी तच्छ्रुत्वा तम् उक्तवती भवान् एव मां परिणयतु सुखेन अत्र एव तिष्ठतु इति क्षन्तव्यम् इदानीं मम समयः नास्ति इति उक्त्वा दामोदरः ततः निर्गत्य उद्यानं प्राप्तवान् तस्य मुखात् विषयं ज्ञात्वा उद्यानस्वामी वृक्षस्य अधः खननं कृत्वा सुवर्णराशिं प्राप्तवान् सन्तुष्टः सः तत्र अर्धः अर्धं दामोदराय समर्पयितुम् उक्त्युक्तः अभवत् मास्तु मित्रा अदुना मम भाग्यं रा जागरितम् अस्ति मम कापि चिन्ता नास्ति इति उक्त्वा ततः प्रस्थितवान् दामोदरः अरण्ये सिंहं दृष्ट्वा तम् अपि सः भाग्यस्य वचनम् उक्तवान् सर्वं श्रुत्वा सः सिंहः भवदपेक्षया मूर्खः को वान्यः भवितुमर्हति भवान् एव महामूर्खः इति उक्त्वा तं मारयित्वा अखादत्